हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्री अध्यात्मरामायणे अरण्यकाण्डे द्वितीय स्वर्गः श्रीमहादेव उवाच विराधे स्वर्गते रामो लक्ष्मणेन च सीतया जगाम शरभङ्गस्य वनं सर्वहं शरभङ्गतो दृष्ट्वा रामं सो सह आयन्तं शीतया सार्धम् सम्भ्रमादुत्थितसुधि अभिगम्य सुसम्पूज्य विष्टरेषु पेषय आतिथ्यम् अकरोत् प्रीत्याय शरभङ्गोऽपि रामं भक्तपरायणम् बहुकालं वासं तपसे कृतनिश्चयः तव सन्दः शनाकाङ्क्षी राम त्वम् परमेश्वरः अद्य मत्तपसा सिद्धम् बहु विद्यते तत्सर्वम् तव ततो मुक्तिं व्रजाम्यहम् समर्प्य रामस्य महत्त्व पुण्यम् फलं विरक्त शरभङ्गयोगे चितिं रामं स सीतं स सा प्रणम्य जायञ्चीरं राममशेषरुक्थम् दुर्वादलश्चामरमम् भुजाक्षम् चिराम्बरं स्निग्धयटाकलापम् सीतासायम् स लक्ष्मणं तम् को वादयालु स्मृतकामधेनो अन्यो जगत्यामृणाय कालौ ज्ञातां स्मृतिं मे स्वयमेव यात् पश्चात्विदानीं देवेशो रामो दाचरति प्रभु जगधा सुरेहं गच्छामि ब्रह्मलोकम् कर्मषः अयोध्याधिपतिर्मे तु हृदये राघवत्सर यद्वामाके स्थिता सीता मेघस्यैव इति रामं चिरं ध्यात्वा दृष्ट्वा च पुरतस्थितं प्रज्वाल्य सावन्निम् दग्ध्वा पञ्चात्मकम् वपुः दिव्य देहधरः साक्षात् ययो लोकपते पदम् ततो मुनिगणा सर्वे दण्डकारण्यवासिनः अजगमुलाघमम् द्रष्टुम् शरभङ्गनिवेशनम् दृष्ट्वा मुनिसमूहन्तं जानकी रामलक्ष्मणः ससा भूमौ माया आशीर्भिनन्द्याथ राम सर्व हृदि स्थितम् उषु प्राञ्जलय सर्वे धनुर्बरं हरिं भोम्भेर्भवताराय धातोऽसि ब्रह्मणास्थितः जानीमस्तां हरिं लक्ष्मीं जानकीं लक्ष्मणं तथा शेषां शं शङ्खचक्रे भरतं सानुजं तथा अतश्चादौ ऋषीणा तम् दुःखम् भोक्तुम्हसि आगच्छो मुनिषे वितानि वनानि सर्वाणि रघुत्तमक्रमात् द्रष्टुम् सुमित्रा सुतजानकीभ्याम् तदा तया स्मासु दृढा भविष्यति इति विद्यापितो रामः कृताञ्जलि पुटैर्विभ जगाम मुनिभि साधम् द्रष्टुं मुनि मनोवनानि स दर्श तत्र पतितानि अनेकानि शिरांसि स अस्थिभूतानि सर्वत्र रामो वचनम् अब्रवीत् अस्थिने केषामेतानि किमर्थं पतितानि वै तम् उचिर्मुनयो राम रुशीलां मस्तकानि राक्षसेर्भक्षितानि च प्रमत्तानां समाधितः अन्तरायं मुनीनां ते पश्यन्तो नोचरन्ति श्रुत्वा वाक्यं मुनीनां स समन्वितं प्रतिज्ञाम् अकरोत् रामो वधाय शेष रक्षसां पूज्यमानयसुधा तत्र मुनिभिः वनवासिभिः जानक्या स्वयितो रामो समन्वितः उवास कतिचित् तत्र वर्षाणि रघुनन्दरः एवं क्रमेण सम्पश्यन् ऋषि आश्रमान् विभो सुतीक्ष्णस्य आश्रम कर्ण्य सुतीक्ष्णः स्वयम् आगतः आगत्य शिष्यो रामस्य मन्त्रोपासन तत्परः विधि वैत् पूजयामास भक्त्युत्कञ्चितलोचरः सुतीक्ष्ण उवाच सन्मन्त्र जाप्यः मनन्त गुणा प्रमेय सीतापतेष्वञ्च समाश्रिताङ्ग्रे संसार सिन्धतरणाय मलपोत्पादय रामाभिराम सततं तव दास दास महमद्य सर्वजगताम् अविगोचरस्व संय कलत्र गृहान्धकूपे मग्नं निरीक्ष मलपुङ् गलपिण्डमोह पाशानुबद्धहृदयम् स्वयमागतोऽसि तं सर्वभूतहृदयेषु कृतालयोऽपि तन्मन्त्रजाप्य विमुखेषु तनोजि मायाम् तन्मन्त्रसाधनै साधनपरेषु पयाति माया सेवानुरूप फलदोषि यथा महीप विश्वस्य सुचिलय संस्कृतिहेतुरेक मायया त्रिगुणय विधीश विष्णु भासि शमोहैतधिया विविधा कृते त्वम् यद्भद्रवि सलिलपात्रगतो यनेक प्रत्यक्षतोद्य भवत शरणारविन्दम् पश्यामि रामतमस परतस्थितस्य दृग्रुपतस्तमसतामविगोचरोऽपि तन्मन्त्रपूतरो वयेषु सदा प्रसन्नः पश्यामि राम तव रूपमरूपिणोऽपि मायाविडम्बनकृतं त मनुष्यवेषम् कन्दर्पकोटिसुभगम् कमनीय चाप वरणम् नीलोत्फलद्युतिमनन्तगुणम् प्रशान्तम् मद्भागधेय मनिशम् प्रणमामि रामम् जानन्तु राम तव रूपमशेष देश कालद्युपाधिरहितम् गणचित्प्रकाशम् प्रत्यक्षतोद्यम चरमेत देव रूपम् इत्येवं तु अतस्तस्य राम सस्मितमब्रवीत् मुरे जानामि ते चित्तम् निर्मलम् मदुपासनात् अतोऽहम् मा गतो द्रष्टुम् मद्रुते नान्यसाधनम् मन्मन्त्रोपासका गतः निरपेक्षान्यगता तेषाम् दृश्योऽहमम् वयम् स्तोत्रमेतत् पचेदस्तु तत्कृतं मत् प्रियं सदा सद्भक्तिर्मे भवेत् तस्य ज्ञानं च विमलं भवेत् तं ममोपासना देव सर्वतः देहान्ते मम सायुज्यं लक्षसे नात्र संशयः गुरुं ते द्रष्टुमिच्छामि जगत्यं मननायकम् किञ्चित् कालं तत्रवस्तुम् वस्तु मनो मे त्वरयच्छरं सुशिक्ष्णोऽपि तथेत्याहे श्वोगमिष्यसि राघवे अहमप्यगमिष्यामि शिरा दृष्टो महामुनिः अथ प्रभाते मुनिना समेतो रामस्य पीतः स लक्ष्मणेन अगस्य सम्भाषणलोलमनसः चन्नैः अगत्या अनुजन्मन्दिरम् ययो इति श्रीमदध्यात्मरामायणे उमामि चतुंवादे अरण्यकाण्डे द्वितीय स्वर्गे श्रीसीतारामचन्द्रार्पणमस्तु